यस्तस्य सहसा राजन्विकारः समदृश्यत तेन शुस्रावरेतोऽस्य स च धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च सविहायाश्रमं तञ्च तां चैवाप्सरसं मुनिः जगामरेतस्तत्तस्य शरस्तम्बे पपात च शरस्तम्बे च पतितं द्विधा तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः मृगयां च रतो राज्ञः शन्तनोऽस्तु कश्चित् सेनाचरोरण्ये मिथुनं तदपश्यत धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्यः सराग्ने दर्शयामास मिथुनं सशरं धनुः स तदाय मिथुनं राजा च कृपयान्वितः आजगामगृहा नेव मम पुत्रा वितिब्रुवन्